हरि ओ श्रीशिवानन्दलहरि सदाशिवसमारम्भाम् शङ्कराचार्यमध्यमाम् अस्मदाचार्यपर्यन्ताम् वन्दे गुरुपरम्पराम् श्रुतिस्मृतिपुराणानाम् आलयम् करुणालयम् नमामि भगवत्पाद शङ्करम् लोकशङ्करम् अङ्कार हृङ्काररहस्ययुक्त श्रीङ्कारगूडार्तमहाविभूद्य ओङ्कारमर्मप्रतिपादिनीभ्याम् नमो नमः गुरुपादुकाभ्यां। शिवाभ्याम् नमः कलाभ्याम् सूटालङ्कृतशिकलाभ्याम् निजतपः पलाभ्याम् भक्तेषु प्रकटितपलाभ्याम् भवतु मे शिवाभ्यामस्तोकत्रिभुवन शिवाभ्याम् कृति पुनर् भवाभ्यामानन्दस् स्फुरदनो भवाभ्याम् नतिरिहम् गळन्ती सम्भो त्वच्चरित सरिथ किल् बिशरजो दळन्ती दिशन्ति संसार परितापोपशमनम् वसन्ती मच्चेतो हृद भवे शिवानन्दलहरी त्रयीवेद्यम् हृद्यम् त्रिपुरहरमाद्यम् त्रिनयनं जटाभारोधारं चलदोरगहारं मृगधरम् महादेवम् देवम् मयि सदय पशुपतिम् चिदालम्भम् शाम्भम् शिवमतिविडम्भम् कृते भजे सहस्रम् वर्तन्ते जगति विबुधा क्षुत्रफलधा न मन्ये स्वप्ने वा तदनुसरणम् तत्कृतफलम् हरिब्रह्मादीनामपि निकटभाजाम सुलभम् चिरम् याचे शम्भो शिव तव पताम्बोजभजनम् स्मृतौ शास्त्रे वैद्ये चकुन कविताघानपणितौ पुराणे मन्त्रे वा स्तुतिनटनहास्येष्व चतुरा कथम् राज्ञाम् प्रीतिर्भवति मयिकोऽहम् पशुपते पशुम् माम् सर्वज्ञ प्रतित कृपया पालय विभो गटो वा मृत्पिण्डोऽपि पी अणुरपि च धूमोऽग्निरचलः पटो वा परिहरति किम् घोरचमनम् वृथा वहसि तरसा तर्कवचसा वदाम्बोजम् शम्भो भज परमसौख्यम् व्रज सुधीः मनस्ते पदब्जे निवसतु वचस्तोत्र पणितौ करौ चाप्यर्चायाम् श्रुतिरपि कथा कर्णनविधौ तवद्याने बुद्धेर् नयनयुगळम् मूर्ति विभवे परघ्रन्तान् कैर्वा परमशिव जाने परमतः यथा रजतमिति काचाश्मनि मणिर्जले पैष्ठे क्षीरम् भवति मृगदृष्णासु सलिलम् तदा देव भजदि भवधन्यम् जडजनो महादेवेशम् त्वाम् मनसि च न मत्वा पशुपते गभीरे कासारे विचति विजने घोर विपिने विचाले चैले च भ्रमति कुसुमार्थम् झटमतिः समर्प्यैकम् चेत् सरसिजमुमानात भवते सुखेनावस्थातुम् जनैह न जानाति किमहो नरत्वम् देवत्वम् नगवनमृगत्वम् अचकधा पशु त्वम् कीटत्वम् भवतो विकगत्वादिजननम् सदा त्वत्पादाब्ज स्मरणपरमानन्दलहरी विहारासक्तम् चेद् ह्रुदयमिक किम् तेन वपुषा वटुर्वा गेही वा यतिरपि जटीवा तदितरो भवतो भव किम् यदीयम् हृत्पद्मम् यदि दीनं पशुपते तदीयस्त्वम् शम्भो भवसि भवबारम् च वहसि गुहायाम् गेहे वा बहिरपि वने वादृशिकरे जले वा वा वसदो वसते किंवदफलम् सदा यस्यैवान्त करणमपि शम्भो तव पदे स च परम असारे संसारे निज भजन दूरे जडदिया भ्रमन्तम् मामन्दम् परमकृपया पादोमुषितम् मदन्य को दीनस्तव कृपण रक्षादिनिपुनस् त्वदन्यः को वा मे पशुपते प्रमुख्योऽहम् तोषाम् अपि किमुत बन्धुत्वमनयो त्वयैव क्षन्तव्या शिवमदपरादाक्ष सकलाः प्रयत्नात्कर्तव्यम् मदवनमियम् बन्धुशरणिः उपेक्षानोचित् भवध्यानविमुखा दुराचाभूयिष्ठाम् विदिलिपिमसक्तो यदि भवान् चिरस्तत्त्वैदात्रम् न पसुपते सुवृत्तम् पशुपते कथम् विरिञ्चिर्दीर्घायोर्भवतु भवता तत्परचिरचतुष्कम् संरक्षम् सकल भुवि दैन्यम् लिखितवान् विचार को वा माम् विचदकृपयापादि शिव ते कटाक्षव्यापार स्वयमपि च दीनावनपरः पलाद्वापुण्यानाम् मयि करुणया विभो प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगळम् कथम् पच्येयम् नाम् स्थगयति नमः सम्भ्रमजुषाम् निलिम्पानाम् निजकनकमाणिक्यमकुटैः त्वमेको लोकानाम् परमफलधो दिव्यपदवी वहन्तस्त्वन्मूलाम् पुनरपिबजन्ते भजन्ते हरिमुखाः कियद्वादाक्षिण्यम् तव द्रक्षाम् वहसि करुणा पूरितदृशा दुराचा भूयिष्ठे दुरा दुरन्ते संसारे दुरितनिलये दुःखजनके मधायासम् किन्न व्यपनयसि कस्योपकृतये वदेयं प्रीतिच्छेत् तव शिव कृतार्ता खलु वयम् सदा मोहाटव्याम् चरति युवतीनाम् कुचगिरौ नटत्या चा चाक स्वैरमपि दहा कपालिन् भिक्षो मे हृदय द्यन्त चपलम् दृढम् दत्या भत्वा शिव भवदीनम् कुरु विभो द्रुतिस्तम्भादाराम् दृढगुणनिबद्धाम् प्रतिदिवस सन्मार्गघटिता स्मरारेम चेत स्फुटपटकुटीम् प्राप्य विचता जयस्वामिन् शक्त्या सकशिवगणैः सेवित विभोम् प्रलोभाद्यैरर्था हरणपरतन्त्रो भ्रमति बहुधातस्करपते इमम् चेतचोरम् कतमिह सखे शङ्कर विभो तवा दीनम् कृत्वा मयि निरपराधे कुरु कृपाम् करोमि त्वत्पूजाम् सबदि सुगतो मे भव विभो विदि त्वम् विष्णु त्वम् दिशसि कलु तस्याफलमिति पुनश्च त्वाम् द्रष्टुम् दिवि बुवि वहन्पक्षि मृगता मदृष्ट्वा तत्केधम् कतमिगसखे शङ्करविभो कदा वा कैलासे कनकमणिसौ देसह वसन् शम्भोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः विभोशाम्ब स्वामिन् परमशिव पाहीति निगतन् विदादृणाम् कल्पान् क्षणमिव विनेष्यामि सुकतः स्तवै ब्रह्मादीनाम् जय जय वचोभिर्नियमिनाम् गणानाम् केलीभिर्मतकलमहोक्षस्य ककुधी स्थितम् नीलग्रीवम् त्रयनमुमाश्लिष्टवपुषम् कदा त्वाम् पश्येयम् करदृतमृगम् कण्ठपरशुम् कदा वा त्वाम् दृष्ट्वा गिरि च तव भव्याम् ग्रियुगलम् गृहीत्वा हस्ताभ्याम् चिरसि नयने वक्षसि मोदमनुभविष्यामि हृदये करस्ते हे माद्रौ गिरिचनिकटस्ते निकटस्थे धनपतौ गृहस्ते स्वर्पूजा चिरस्ते चीतांशो शरणयुगलस्ते किल कमर्थम् दास्येहम् भवतु भवदर्थम् मम मनः सारूप्यम् तव पूजने शिव महा देवेति सङ्कीर्तने सामीप्यम् शिवभक्तिदुर्यजनत साङ्गत्य सम्भाषणे लोग्यम् च ध्याने भवानीपते सायुज्यम् मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम् त्वत्पादाम्बुजमर्चयामि परमम् त्वाम् चिन्तयाम्यन्वहम् त्वामीचम् शरणम् व्रजामि वचस त्वामेव याचे विभो वीक्षा मेधिससाक्षुषीम् सकरुणा दिव्यैश्चिरम् प्रार्थिताम् शम्भो लोकगुरोमतीयमनसौख्योपदेशम् कुरु ोद्धूतविदौ सगस्र करता पुष्पार्चने विष्णुता गन्ते गन्तवगात्मतान्नपचने बर्ह्यर्मुकाध्यक्षत पात्रे काञ्चन गर्भतास्ति मयि चेत् बालेन्दुशूटामणि कृशाम् पशुपते स्वामिन् त्रिलोकी गुरो नालम् वा परमोपकारकमिधम् त्वेकम् पशूनाम् पते पश्यन् कुक्षिगताञ्चराचरगणान् बाह्यस्थितान् रक्षितुम् सर्वामर्त्यपलायनौषधमती ज्वालाकरम् बीकरं निक्षिप्तम् गरलम् गले न गलितम् नोद्गीर्णमेव त्वया ज्वालोऽग्रसकलामरातिभयथ श्वेलकथम् दृष्ट किञ्च करे दृत करतले किम् निगिदच्च शिद्धगुटिकाम् वाकण्डदेशे भृतः किम् ते नीलमणिर्विभूक्षणमयम् शम्भो महात्मन् वदा नालम्बाशकृदेव देव भवतस् सेवानतिर्वानुतिः पूजा वा स्मरणम् गता श्रवणम् अयालोकनम् मातृशाम् तिरदेवतानुशरणा यासेन किम् लभ्यते मुक्तिरितकुतो भवति चेत् किम् प्रार्थनीयम् तदा किम् ब्रूमस्तव भवत् दैर्यम् चेदृशमात्मनस्थितिरियम् अचान्यैकतम् लभ्यते पश्यद्देवकणम् त्रसन्मुनिगणम् नश्यत्प्रपञ्चम् लयम् पश्यन्निर्भय एक एव विहरत् आनन्दसान्द्रो योगक्षेमधुरन्दरस्य सकल श्रेयःप्रदोद्योगिनो दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः सर्वज्ञस्य दयाकरस्य भवत् किम् शम्भो त्वम् परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् भक्तो भक्तिगुणावृते मुदमृधा पूर्णे प्रसन्ने मनः कुम्भेषाम्बत वाङ््रिपल्लवयुकम् संस्थाप्य संवित्पलम् म् मन्त्रमुदीरयन्निज शरीरागारशुद्धिम्बहन् पुण्याहम् प्रकटीकरोमि रुचिरम् कल्याणमापाधयन् आम् नायाम्बुतिमादरेण सुमनस्सङ्गाः समुध्यन्मनो मन्तानम् रज्जुसकितम् कृत्वा मतित्वा ततः कल्पतरुं सुपर्वशुरभिं सुपर्वशुरभिम् चिन्तामणिम् दीमताम् नित्यानन्दसुधाम् निरन्तरमम् सौभाग्यमातन्वते प्राक्पुण्याचलमार्गदश्चितसुधा मूर्त्तिप्रसन्नः शिवः सोमः चेतपुष्करलक्षितोभवति पूर्णस्तमोमोचकः प्राकल्पेन विजृम्बते सुमनसा वृत्तिस्तधा जायते धर्मो मे च दुरङ्कृकः सुचरित पापम् विनाशम् गतम् कामक्रोधमदातयो विगलित ज्ञानानन्दमहौषधिः कैवल्यनाते कैवल्यनाथे सधा मान्ये मानस राजावतंसे स्थिते दीयन्त्रेण वचोगटेन कविता कुल्योपकुल्याक्रमये रानीदैश्च सदा शिवस्य चरिता भोराशि दिव्यामृतैः हृत्के धारयुताच्च भक्तिकलमा साफल्यमातन्वते दुर्भिक्षान्मम सेवकस्य भगवन् विश्वे च पापोत्पात विमोचनाय रुचिरेच् वर्याय मृत्युञ्जया स्तोत्रद्याननदे प्रतक्षिण सपर्यालोकनाकर्णने जिक्वाचित्तशिरोऽङ्गृहस्तनयन प्रार्थितो माज्ञापयतन्ति रोपय महोर् मामेव मामेव चहा काम्भीर्यम् परिकापतम् गनदृथि प्राकार उद्यद्गुणा स्तोमच्चाप्तफलम् गणेन्द्रियचयो द्वाराणि देहे स्थितः विद्यावस् तु समृद्धिरत्य किल सामग्री समेते सदा दुर्गादिप्रिय देव मामकमनो दुर्गे निवासम् कुरु मा गच्छ त्वमितस्ततो गिरिच कुरु स्वामिन्नादि मामकमन कान्तार सीमान्तरे वर्तन्ते बहुशो मृगामदजुषो मात्सर्यमोवादयस्थान् हत्वा मृगया विनोतरुचिताल पञ्झ सम्प्राप्स्यसि करलग्नम् मृग चार्दूलविकण्टनोऽस्त जन्तुः गिरिचो विचदाकृतश्च चेतगुहरे पञ्च मुकोऽस्ति मे कुतो बीः संसेविते शाश्वते सौख्यापादिनिकेद वेदिनि सुदा सारैर्पलैर्दीपिते चेतपक्षिषिकामणे त्यजव्रत सञ्चारमन्यैरलम् नित्यम् शङ्करपादपद्मयुगळे नीडे विहारम् कुरु आकीर्णेन गराजिकान्ति विभवै हृद्यत्सुता भवै रादौतेऽपि च पद्मरागलिते हंस व्रजैराश्रिते नित्यम् भक्तिवधो गणैश्च रहसी स्वेच्छाविहारम् कुरु स्थित्वा मानस राजहंस गिरिजा म्बुद्यानवसन्त सङ्गिनिगृधा रामे जीर्णश्च तथाः श्रद्धा भक्तिलता गुणकोरका झपवच पुष्पाणि सत् ज्ञानानन्द सुधामरन्तलहरे संवित् पलाभ्युन्नतिः नित्यानन्दरसालयम् सुरमुनि स्वान् दाम्बुजाताश्रयम् स्वच्छम् सम्बुद्यान सरोवरम् व्रजमनो हंसावतम् स स्थिरम् किं शोद्राश्रय पल्लव भ्रमण सञ्जातः प्राप्स्यसि आनन्दामृद पूरिताम् हरपदाम् तैर्यो भग्नमुपेत्य भक्तिलतिका चाकोपचाकान्विता उच्चैर्मान स कायमानपटली माक्रम्य निष्कल्मष नित्याभीष्टफलप्रदा भवतो मे सत्कर्म संवर्धित सन्ध्यारम्ब विजृम्बितम् श्रुतिश्चिरस्तानन्दराधिष्ठितम् सप्रेम भ्रमराभिरामम सकृद् सत्त्वासनाशोपितम् भोगीन्द्राभरणम् समस्त सुमन देवे श्रीगिरिमल्लिगार्जुन महालिङ्गम् शिवालिङ्गिधम् भृङ्गीचानटनोत्कटकरिमत ग्राहो स्फुरन् माधव ह्लादो नादयुधो महाशिव तपो पञ्चेक्षुणाशादृतः सत् पक्षत्सु मनो वनेषु स मनो राजीवे प्रमरादिपो विहरत श्रीशैलवासी विभुः कारुण्यामृतवर्षिणम् गनविभत् ग्रीष्मचिता कर्मटम् लोदयायसु मनस् संसेव्यमिच्छाकृतिम् नृत्यभक्तमयूरमद्रिनिलयम् सञ्चज्जटामण्डलम् शम्भो त्वा मे मनच्छातकः आकाचेन चिकी समस्तपणिनाम् नेत्रा कला पीनता अनुग्राही प्रणवोपदेशनिनधये केतीति योगीयते दृष्ट्वा नडन्तम् मुदा वेदान्तोपवने विकाररसिकम् तम् नीलकण्ठम् भजेम् सन्ध्याकर्मदिनात्ययो हरिकरा गातः द्वानो वारिदगर्जितं दिविशता दृष्टिचटा चञ्चला भक्तानाम् परिदोषबाष्पविदतेर्वृष्टिर्मयूरी शिवा यस्मिन्नुज्ज्वलताण्डवम् विजयते तम् नीलकण्ठम् भजेम् आत्यायामि देजसे वेद्याय साध्यायते विद्यानन्दमयात्मनेत्रिजगतः संरक्षणोद्योगिने द्येयाया किल योगिभिः सुरगणैर्गेयाय मायाविने सम्यक्ताण्डवसम्भ्रमाय जटिने सेयम् न दीशम्भवे नित्यायत्रिगुणात्मने पुरजिते कात्यायनी श्रेयसे सत्यायादिकुटुम्बिने मुनिमन प्रत्यक्षचिन्मूर्तये मायासृष्टजगत्त्रयाय सकला नायान्तसञ्चारिणे सायम् ताण्डवसम्भ्रमाय जटिने सेयम् नतिशम्भवे नित्यं श्वोदरपोषणाय सकलान् उत्तिच्य वित्ता छया व्यर्थम् पर्यटनम् करोमि भवथ सेवाम् न जाने वि भो मज्जन्मान्तरपुण्यपाकबलतस् त्वम् चर्वसर्वान्तरस् तिष्ठस्येव हि तेन पशुपते ते रक्षणीयोऽस्म्यहम् एको वारिजबान्तवक्षिति नभो व्याप्तम् तमो मण्डलम् विद्वालोचन गोचरोऽपि भवति त्वम् कोटिसूर्यप्रभहा वेद्य किन्न भवस्य होगनतरम् तत्सर्वं सर्वम् पशुपते साक्षात् प्रसन्नो भवा हंसपद्मवनम् समिच्छति यता नीलाम्बुतम् चातकः कोककोकनतप्रियम् प्रतिदिनम् चन्द्रम् चकोरस्तथा चेतो वाञ्छति मामकम् पशुपते चिन्मार्गमृग्यम् विभो गौरीनाथ भवत्पदाब्जयुगलम् कैवल्यसौख्यप्रतम् रोदस्तोयकृतश्रमेण पथिक चायान्तरोर्वृष्टितः बीत स्वस्थ गृहम् गृहस्तमतिथिर् दीनप्रभुम् दार्मिकम् दीपम् सन्तमसाकुलच्चचिकिनम् चीदावृतस्त्वम् तथा चेतः सर्वभयापकम् व्रजसुखम् शम्भोपधाम्बोरुहम् अङ्कोलम् निज बीज सन्ततिरयस् सूचिका साद्वीनैज विभुम् लताशितिरुहम् सिन्धुः सरिद्वल्लभम् पादारविन्दद्वयम् चेतो वृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते आनन्दाश्रुभिरातनोतिपुलकम् नैर्मल्यतश्चादनम् वाचा शङ्कमुखे चरित्रामृधैः रुद्राक्षैर्पसितेन देव वपुषो रक्षाम्भवद्भावना पर्यङ्के विनिवेच्य भक्तिजननी भक्तार्बकम् रक्षति मार्गावर्तितपादुका पशुपते कूर्चायते गण्टूषाम्बुनिषेचनम् पुररिपोर् दिव्याभिषेकायते किञ्चिद् भक्षितमांसचेशकफलम् न प्योपहारायते भक्तिः किम् करोत्यहो वनचरो तावतम् सायते वक्षस्ताढनमन्तकस्य कटिना पस्मारसंवर्धनम् भोप्र पर्यटनम् न मत्सुरचिर कोटीरसङ्गर्षणम् वन्द्वस्य गौरीपते मच्छेतो विहरणं शम्भो सदाङ्गीकुरु वक्षस्ताडनशङ्गया विचलितो वैवस्वतो निर्जराहा निर्जराः कोटीरोज्ज्वलरत्नदीपकलिका नीराजनं कुर्वते दृष्ट्वा मुक्तिवधुस्तनोति निवृता श्लेषम् भवानीपते यच्चेतस्तव पादपद्मभजनम् तस्येहकिं किम् दुर्लभम् क्रीडार्थम् सृजसि प्रपञ्चमखिलम् क्रीडामृगास्ते जनाः यत्कर्माचरितम् मया च भवत प्रीत्यै भवत्येव तत् शम्भो स्वस्य कुतूहलस्य करणम् मच्चेष्टितम् निश्चितम् तस्मान् मामकरक्षणम् पशुभते व्यमेव त्वया बहुवित परितोषबाष्पपूर स्फुटपुलकाङ्कितचारुभोगभूमिम् चिरपतपलकाङ्क्षि सेव्यमानाम् परम सदाशिव भावनाम् प्रबद्ये अमित मुद मृदम् मुहूर्दुहन्ती विमल भवद्पद सदय पशुपते सुपुण्यपाका मम परिपालय जटता पशुता कलङ्किता कुटिलशरत्वम् च राजमौले भवतापरणस्य नास्मि किम् पात्रम् अरहसि अगणितफलदायक प्रभुर्मे जगदधिको हृदि राजशेखरोऽस्ति आरूढभक्तिगुणकुञ्चितभावचाप युक्तै शिव स्मरणभाणगणैरमोगैः निर्जिद्य किल्पिषरिपून्विजयी सुधीन्द्र सानन्दमावकदि सुस्थिरराजलक्ष्मीम् द्यानाञ्जनेन समवेश्य तमप्रदेशम् वित्त्वा ये पाधपद्ममिकते शिव ते कृतार्ताः भूतारतामुदवक्यदपेक्षया श्री भूतारयव किमतः सुमेतलभस्व केतारमाकलितमुक्तिमहौषदीना पादारविन्दभजनम् परमेश्वरस्य आचा पाचक्लेशदुर्वासनादि बोधात्योक्तैर्दिव्यगन्धैरमन्दैः आचाचाटीकस्य पादारविन्दम् चेत पेटीम् वासितामेतनो तु कल्याणिनम् सरसचित्रगतिम् सवेघम् सर्वेङ्गितज्ञमनगम् द्रुवलक्षणाढ्यम् चेतस्तुरङ्गमधिरुह्य चरः नेतः समस्त जगता वृषभातिरूढा भक्तिर्महेश पद पुष्करमा वसन्ति तज्जन्म सस्यमकिलम् सफलम् च सं मोहितेव शिवमन्त्रजपेन विन्ते सदुपचारविदिष्वनुबोधिताम् स विनयाम् सुहृदम् सदुपाश्रुताम् मम समुदरबुद्धिमिमाम् प्रभो वरगुणेन न वाडवतोमिव ्यम् योगिमनःसरोजदल सञ्चारक्षमस्त्वतक्रमः शम्बोधेन कथम् कटोरयमरट्वक्षस्कवाडक्षतिः अद्यन्तम् मृदुलम् त्वदङ््रियुगलम् हा मे मनश्चिन्तयत् ल्लोचनगोचरम् कुरु विभो हस्तेन संवाहये एषत्येष जनिम् मनोऽस्य कठिनम् तस्मिन्नडानीतिमत् न्यासपुराभ्यासितः नो चेत् दिव्यगृहान्तरेषु सुमनस् तल्पेषु वेद्यादिषु प्रायः सत्सुचिलातलेषु नटनम् शम्भो किमर्थम् तव कञ्चित्कालमुमा महेश भवत रविन्दाचनैः कञ्चिद् ध्यानसमादिभिश्च न दिभिः कञ्चित्कथाकर्णनैः कञ्चित्कञ्चिदवेक्षणैश्चनुदिभिः प्राप्नोति मुदा जीवन्समुक्तकलो बाणत्वम् वृषभत्वमार्दवपुष बात्यात्वमार्यापते गोहिणीत्वम् सकितामृदङ्कवहत चेत्यादिरूपम् दधौ त्वत्पाधेन देहभागो हरिः पूज्यात् पूज्यतरस्व एव हि न चेत् को वादतन्योदिकः सेवया देवतानां न भवति शुकले च तत्र अजनीममृतरूपम् साम्बमीशम् भजन्ते यैः परमसौख्यम् ते हि धन्या लभन्ते शिव परिचर्या सन्निदानाय गौर्या भव मम गुणदुर्याम् बुद्धिकन्याम् प्रदास्ये सकलभुवनबन्धो सच्चिदानन्दसिन्धो सतय हृतयगेके सर्वदा संवसत्वम् जलती मतनदक्षो नैव पातालभेदि न च वनमृकयान्नैव लुब्धब्रवीणः अचन कुसुमभूषावत्स्रमु ्याम् सपर्या कथय कतमहम् ते कल्पयानीन्दुमौले पूजा द्रव्यसमृद्धयो विरचिता पूजाम् कथम् कुर्महे पक्षित्वम् न न प्राप्तम् मया दुर्लभम् जाने मस्तकमङ्िपल्लवमुमा जानेन तेऽहम् विभो न ज्ञातम् हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा गरलं गरलम् कलापो, वसनम् चर्म च वाहनम् मघोषः मम दास्यसि किम् किमस्ति शम्भो तव पादाम्बुजभक्तिमेव देहि यथा कृताम्बोनि दीशे दुवन्दनः करस्तलादकृतपर्वताधिपः भवानीते लङ्कितपद्मसम्भवः तथा शिवार्चास्तव भावनक्षमः नदिभिर्नुदिबेस्त्वमीश पूजा विधिभिर्ध्यानसमाधिभिर्न तुष्टः धनुषा मुसलेन शाश्मभिर्वा वदते प्रैतिकरम् ततो करोमि वचसा चरितम् वदामि शम्बो रकमोद्योकविधा सुते प्रसक्तः मनसा कृतिमीश्वरस्य शेवे चिरसा चैव सदा शिवम् नमामि आद्या विद्याहृत् गता निर्गताऽऽसीद् विद्याकृद्याहृत्कता त्वत्प्रसादाद् सेवे भावे मुक्तेर्भाजनम् राजमौलेम् दूरीकृतानि दुरितानि दूरी दुरक्षराणि दौर्भाग्यदुःखक दुरहङ्कृति दुर्वचांसि सारम् त्वदीय चरितम् नितराम् पिबन्तम् गौरी च मामिकसमुद्धरसत्कटाक्षैः स्वामिनि गिरिजानादे मामः हृदयम् निरन्तरम् रमताम् सारसनाथेनयनेतावेव करोस एव कृतकृत्यः याये यौ व्यो भर्गम् वतति क्षेते सदार्चतक् मम शरणा तिकठिनम् ते मनो भवानी च इति विचिकित्साम् सद्यज कथमासीद् गिरौ तथा रबसादा क्रोष्य निवृतम् रभसादाकृष्य भक्तिशृङ्खलया पुरहरशरणालाने हृदयमदेवम् पदा न चित्यन्त्रैः प्रचरत्यपितप्रकल्पवृद्ध्या भक्तिरज्वा परमस्ताणुपदम् दृढम् नयामुम् सर्वालङ्कारयुक्ता सरलपदयुताम् साधुवृद्धाम् सुवर्णाम् सद्भिः संस्तूयमानाम् सरसगुणयुधाम् लक्षिताम् लक्षणाढ्याम् उद्यद्भूषा विशेषा मुभगतविनयाम् द्योतमानार्तरेकाम् कल्याणीम् देवगौरी प्रिय मम कविता कन्यकाम् त्वम् गृहाण इदम् ते युक्तम् वा परमशिव कारुण्य जलधे तव पदशिरो हरिब्रह्माणौ तौ दिवि शमयुतौ कदम् शम्भो स्वामिन् कथय मम वेत्योऽसि पुरदः स्तोत्रेणालमहम् प्रवश्मिनमृषा देवाविरिञ्चादयः स्तुत्यानाम् गणना प्रसङ्गसमये त्वामग्रगण्यम् विदुः माहात्म्याग्रविचारणप्रकरणे दानातु सष्टोमवत् दूतास्त्वाम् विदुरुत्तमोत्तमबलम् शम्भो भवत्सेवकः इति श्रीमत्परमहंसपरिव्राजकाचार्यम् श्रीमच्छङ्कराचार्यविरचिता शिवानन्दलहरी समाप्त अन्यथा चरणम् नास्ति त्वमेव शरणम् मम तस्मात् कारुण्यभावेन रक्षरक्षमहेश्वरा